अथ पुरवर्गः पूस्त्रीपुरीनगर्यौ वा पत्तनं पुटभेदनम् स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् तच्छाखानगरं वेषः वेश्याजनसमाश्रयः आपणस्तु निषद्यायाम् विपणिः रथ्या रथ्याप्रतोदीविशिखा स्याच्चयो वप्रमस्त्रियाम् प्राकारो वरणः सालः प्राचीनम् प्रान्ततो भृतिः भृत्तिस्त्रीकुड्यमेडूकम् यदन्तर्न्यस्तकीकसम् गृहम् देहोदवसितम् वेश्मसद्मनिकेतनम् निशान्तपस्त्यसदनम् भवनागारमन्दिरम् गृहाः पुंसि च भून्येव निकाय्यनिलयालयाः वासः कुटीद्वयोः शाला सभासञ्जवनम् त्विदम् चतुःशालम् मुनीनाम् वाजिशाला तु आवेशनम् शिल्पिशालात् प्रपानीयशालिकात् मठश्छात्रादिनिलयः गञ्जातु वासगृहं अरिष्टं सूतिकागृहं अरिष्टम् सूतिकागृहम् कुट्टिमोऽस्त्रीनिबद्धाभूः चन्द्रशालाशिरोगृहम् वातायनम् गवाक्षोथ मण्डपोऽस्त्रीजनाश्रयः हर्म्यादिधनिनाम् वासः प्रासादो देवभूभुजाम् सौधोऽस्त्रीराजसदनम् उपकार्योपकारिका स्वस्तिकः सर्वतो भद्रहा नन्द्यावर्तादयोऽपि चाद् विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् स्त्रगारंभूजु सियादनम शुद्धातरोधट्ट क्षौम स्त्रििया प्रघाण प्रघा निन्दा बहद्द्वारकोठ्रहणी देहली अंकण्चरा जिरे अधस्ता दारुणिशिला नासादारूपरिस्थितम् प्रच्छन्नमन्तर्द्वारम् स्यात् पक्षद्वारम् तु पक्षकम् वलीकनीध्रेपटलप्रान्तेऽथ पटलम् छदिः गोपानसी तु वलभी छादने वक्रदारुणी कपोतपालिकायान्तु विटङ्कम् पुन्नपुंसकम् स्त्री द्वार्द्वारम् प्रतीहारः स्याद्वितर्तिस्तु वेदिका तोरणोऽस्त्रीबहिर्द्वारम् पुरद्वारम् तु गोपुरम् कूटम्पूर्द्वारि यद्धस्ति नखस्तस्मिन्नथ कपाटमररं कपाटमरम् तुल्ये तद्विष्कम्भोर्बलम् नना आरोहणम् स्यात्सोपानम् निःश्रेणिस्त्वभिरोहिणी सम्मार्जनीशोधनी स्यात् सङ्करो वकरस्तया क्षिप्ते मुखम् निःसरणम् सन्निवेशो निकर्षणम् समौ सम्वसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ग्रामान्त घोष आभीरपल्ली सिया पक्क शबरालर्गहा